दशाधिकशततमः सर्गः तासाम् विलपमानानाम् तदा राक्षसयोषिता ज्येष्ठपत्नी प्रियादीना भर्तारम् समुदैक्षत दशग्रीवम् हतम् दृष्ट्वा रामेणाचिन्त्य कर्मणा पतिम् मन्दोदरी तत्र कृपणा पर्यदेव यत् क्रुद्धस्य प्रमुखे स्थातुम् त्रस्यत्यपि पुरन्दरः ऋषयश्च महान्तोऽपि गन्धर्वाश्च यशस्विनः ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः स त्वम् मानुषमात्रेण रामेण युधि निर्जितः नव्यपत्रपसे राजन् किमिदम् राक्षसेश्वर कथम् त्रैलोक्यमाक्रम्य श्रिया अविषह्यम् जगानत्वा त्वाम् मानुषो वनगोचरः मानुषाणामविषये चरतः कामरूपिणः विनाशस्तव रामेण संयुगेनोपपद्यते न चैतत्कर्म रामस्य श्रद्दधामि च मोमुखे सर्वतः समुपेतस्य अथवा रामरूपेण कृतान्तः स्वयमागतः मायाम् तव विनाशाय विधाया प्रतितर्किता अथवा वासवेन त्वम् महाबला वासवस्य तु काशक्तिस्त्वां शक्तिस्त्वाम् द्रष्टुमपि संयुगे महाबलं महावीर्यं देवशत्रुम् महौजसं व्यक्तमेश महायोगी परमात्मा सनातनः अनादिमध्यनिधनो महतः परमो महान् तमसः परमो धाता शङ्खचक्रगदाधरः श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः मानुषम् रूपमास्थाय विष्णुः सत्यपराक्रमः सर्वैः परिवृतो देवैर्वाणरत्वमुपागतैः सर्वलोकेश्वरः श्रीमाल्लोकानाम् हितकाम्यया स राक्षसपरीवारम् इन्द्रियाणि पुराजित्वा जितम् त्रिभुवनम् त्वया स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः खरस्तु निहतो भ्राता तदा रामो न मानुषः यदैव दुष्प्रवेशाम् सुरैरपि प्रविष्टो हनुमान् वीर्यात्तदैव व्यथिता क्रियतामविरोधश्च राघवेणेति यन्मया उच्यमानो न गृह्णासि तस्येयम् युष्टिरागता अकस्माच्चाभिकामोऽसि सीताम् राक्षसपुङ्गवा ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च अरुन्धत्या विशिष्टाम् रोहिण्याश्चापि दुर्मते सीताम् धर्शयतामान्याम् त्वया ह्यसदृशम् कृतम् वसुधाया हि वसुधाम् श्रिया श्रीम् भर्तृवत्सलाम् सीताम् सर्वानवद्याङ्गीमरण्ये विजने शुभाम् आनयित्वा तु ताम् दीराम् छद्मनात्मस्वदूषणम् अप्राप्यतम् चैव कामम् मैथिलीसङ्गमे प्रभो तदैवयन्न दग्धस्त्वम् दर्शयम् देवा बिभ्यति सर्वे सेन्द्राः साग्निपुरोगमाः अवश्यमेव लभते फलम् पापस्य कर्मणः भर्तः परियागते काले कर्ता नास्त्यत्र संशयः शुभकृच्छुभमाप्नोति पापकृत्पापमश्नुते विभीषणः सुखम् प्राप्तस्त्वम् प्राप्तः पापमीदृशम् सन्त्यन्याः प्रमदास्तुभ्यम् रूपेणाभ्यधिकास्ततः अनङ्गवशमापन्नस्त्वम् तु मोहान्न बुध्यसे न कुलेन न रूपेण न दाक्षिण्येन बुध्यसे सर्वदा नास्ति मृत्युरलक्षणः तव तद्वदयम् मृत्युर्मैथिलीकृतलक्षणः सीतानिमित्तजो मृत्युस्त्वया मैथिलीसह रामेण विशोका विहरिष्यति अल्पपुण्या त्वहम् घोरे पतिता शोकसागरे कैलासे मन्दरे मेरौ तथा चैत्ररथे वने देवोद्यानेषु सर्वेषु विहृत्यसहिता त्वया विमानेनानुरूपेण यायाम् यतुलया श्रिया पश्यन्ती विविधाम् देशाम्स्ताम् स्तांश्चित्रस्रगम्बरा भ्रंशिता कामभोगेभ्यः सास्मि वीरवधात्तव सैवान्येवास्मि संवृत्ताधिग्राज्ञाम् चञ्चलाम् श्रियम् हाराजन्सुकुमारम् ते सुभ्रुसुत्वक्समुन्नतम् कान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः किरीटकूटो ज्वलितं ताम्रास्यं दीप्तकुण्डलम् मदव्याकुललोलाक्षं भूत्वा यत्पानभूमिषु विविधस्रग्धरम् चारु वल्गुस्मितकथम् शुभम् तदेवाद्यत वैवम् हि वक्त्रम् न प्रभो रामसायकनिर्भिन्नम् रक्तम् रुधिरविश्रवैः विशीर्णमेदो मस्तिष्कम् हा पश्चिमामे संप्राप्ता दशा वैधव्यदायिनी यामयासीन्न सम्बुद्धा कदाचिदपि मन्दया पिता दानवराजो मे भर्ता मे राक्षसेश्वरः पुत्रो मे शक्रनिर्जेता इत्यहम् गर्विता भृशम् दृप्तारिमथनाः क्रूराः प्रख्यातबलपौरुषाः अकुतश्चिद्भयानाथ ममेत्यासीन्मतिर्ध्रुवा प्रभासर्षभा कथम भयम सूषादिद्मागत कथं नील बुद्धं नीलं तो प्राशु शैलोपम महत् केयूराद वैदू मुक्ता ह्रगुजल काहारेकी संग्रा भूमिषु भातण भाभीत तदेवाद्यशरीरम् ते तीक्ष्णैर्नैकशरैश्चितम् पुनर्दुर्लभ संस्पर्शम् परिष्वक्तुम् न शक्यते श्वाविधः सललैर्यद्वद्बाणैर्लग्नैर्निरन्तरम् स्वर्पितैर्म सुभृशम् सञ्छिन्नः स्नायुबन्धनम् क्षितौ निपतितम् वज्रप्रहाराभिहतो विकीर्ण पर्वतः वेदं कथं हा स्वप्नः सत्यमेवेदम् त्वम् रामेण कथम् हतः त्वम् मृत्योरपि मृत्युस्याः कथम् मृत्युवशम् गतः त्रैलोक्यवसुभोक्तारम् त्रैलोक्योद्वेगदम् महत् जेतारम् लोकपालानाम् क्षेप्तारम् शङ्करस्य च दृप्तानाम् निग्रहीतारमाविष्कृतपराक्रमम् लोकक्षोभयितारम् च साधुभूतविदारणम् ओजसादृप्तवाक्यानाम् वक्तारम् रिपुसन्निधौ स्वयूथभृत्यगोप्तारम् हन्तारम् भीमकर्मणाम् हन्तारम् दानवेन्द्राणाम् यक्षाणाम् च सहस्रशः निवातकवचानाम् तु निग्रहीतारमाहवे नैकयज्ञविलोप्तारम् त्रातारम् स्वजनस्य च धर्मव्यवस्थाभेत्तारम् माया स्रष्टारमाहवे देवासुरनृकन्यानामाहर्तारम् ततस्ततः शत्रुस्त्रीशोकदातारम् नेतारम् स्वजनस्य च लङ्काद्वीपस्य गोप्तारम् भीम कर्तारम् भीमकर्मणाम् अस्माकम् कामभोगानाम् दातारम् रथिनाम् वरम् एवम् प्रभावं भर्तारम् दृष्ट्वा रामेण पातितम् स्थिरास्मि या देहमिमम् धारयामि हतप्रिया शयनेषु महार्हेषु शयित्वा राक्षसेश्वरा इह कस्मात्प्रसुप्तोऽसि धरण्याम्रेणुगुण्ठितः यदा मेतन यः शस्तो तदा त्वभिहता तीव्रमद्यत्वस्मिन्निपातिता साहम् बन्धुजनैर्हीना हीनानाथेन च त्वया विहीना कामभोगैश्च शोचिष्ये शाश्वती समाः प्रपन्नो दीर्घमध्वानम् राजन्नद्यसुदुर्गमम् नय मामपि विना कस्मात् विहायेह कृपणाम् गन्तुमिच्छसि दीनाम् विलपतीम् मन्दाम् किञ्च माम् दृष्ट्वा न खल्वभि क्रुद्धो मामिहानवगुण्ठिता निर्गताम् नगरद्वारात् पद्भ्यामेवागताम् प्रभो पश्येष्टदारदारांस्ते भ्रष्टलज्जावगुण्ठनान् बहिर्निष्पतितान् सर्वान् कथम् दृष्ट्वा न कुप्यसि अयम् क्रीडा सहायस्ते नाथोलालप्यते जनः न ना चैनमाश्वासयसि किम्वा न बहु यात्रायाध वाज कु पतिव्रता धर्मरता गुरशुश्रूषणेता शोका भीत श परशिपाश्त प्रवाद सत्यय प्रतियशो नृप पतिकस्मात्तंश्रूणी भूतले कथञ्च नाम ते राजन् लोकानाक्रम्य तेजसा नारीचौर्यमिदम् क्षुद्रम् कृतम् शौण्डीर्यमानिना अपनीयाश्रमाद्रामम् यन्मृगच्छद्मना त्वया आनीता रामपत्नी सा अपनीय कातर्यम् च युद्धे कदाचित् संस्मराम्यहम् तत्तु पक्वलक्षणम् अतीतानागतार्थज्ञो वर्तमानविचक्षणः मैथिलीमाहृताम् दृष्ट्वा ध्यात्वा निःश्वस्य चायतम् सत्यवाक् स महाबाहो देवरोमे यदब्रवीत् अयम् राक्षसमुख्यानाम् विनाशः प्रत्युपस्थितः कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना निवृत्तस्त्वत्कृतेनार्थः सोऽयम् मूलः त्वया कृतमिदम् सर्वमनाथम् राक्षसम् नहित्वं शोचितव्योमे प्रख्यात त्वम् शोचितव्यो तुमे प्रख्यातबलपौरुषः बुद्धिः कारुण्ये परिवर्तते सुकृतं दुष्कृतं चत्वं त्वम् गृहीत्वा स्वाम् गतिम् गतः आत्मानमनु शोचामि त्वद्विनाशेन दुःखिता सुहृदाम् हितकामानाम् न हितका श्रुतम् त्वया भ्रातण्च का हित मुक्त दशानना हेत्थयुक्त विधिव्रेयस्कम दारुण् विभीषणेनाहित नृतम हेतुम थया मरचकुंभकर्ण्या मम पिस्तथ नृतम वीर्यम स्वगात्राणि विनिक्षिप्य किम् शेषे रुधिरावृतः प्रसुप्त इव शोकार्ताम् किम् माम् न प्रतिभाषसे महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः यातुधानस्य दौहित्रीम् किम् माम् न प्रतिभाषसे उत्तिष्ठोत्तिष्ठ किम् शेषे न वे परिभवे कृते अद्य वैनिर्भयालङ्काम् प्रविष्टाः सूर्यरश्मयः येन सूदयसे शत्रून् समरे सूर्यवर्चसा वज्रम् वज्रधरस्येव सोऽयन्ते सततार्चितः प्रणे बहुप्रहरणो हेमजालपरिष्कृतः परिघो व्यवकीर्णस्ते बाणैश्चिन्नः सह स्वधा प्रियामिवोपसङ्गृह्य किं शेषेरणमेदिनीम् अप्रियामिव कस्मार्च माम्नेच्छस्यभिभाषितुम् धिगस्तु हृदयम् यस्या ममेदन्न सहस्रधा त्वय पञ्च त्वमापन्ने फलते शोकपीडितम् इत्येवम् विलपन्ती सा बाष्पर्याकुले क्षणा स्नेहोपस्कन्न हृदया तदा मोहमुपागमत् कष्मलाभिहता सन्ना बभौ सा रावणोरसि जलदे दीप्ता विद्युदिवोज्ज्वला तथा गताम् समुत्थाप्य सपत्न्यस्ताम् भृशातुराः पर्यवस्थापयामासूरुदत्योरुदतीम् भृशम् किम् तेन विदिता देवि लोकानाम् स्थितिरध्रुवा दशाविभागपर्याये राज्ञाम् वै चञ्चला स्त्रियः प्ररुरोधः स्नपयन्ति तदास्त्रेण स्तनौ वक्त्रम् सुनिर्मलम् एतस्मिन्नन्तरे रामो विभीषणमुवाचः संस्कारः क्रियताम् भ्रातुस्त्रीगणः परिसान्त्वयताम् तमुवाच ततो धीमान् विभीषण इदम् वचः विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितम् हितम् त्यक्तधर्मव्रतम् क्रूरम् नृषम् समनृतम् तथा नाहमर्हामि संस्कर्तुम् परदाराभिमर्शनम् भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः रावणो नार्हते पूजाम् पूज्योपि गुरुगौरवात् नृशंस इति माम् राम वक्ष्यन्ति मनुजा भुवि श्रुत्वा तस्यागुणान् सर्वे वक्ष्यन्ति सुकृतम् पुनः तच्छ्रुत्वा परमप्रीतो रामो धर्मभृताम् वरः विभीषणमुवाचेदम् वाक्यज्ञम् तवापि मे प्रियम् कार्यम् त्वत्प्रभावान्मया जितम् अवश्यम् तु क्षमम् वाच्य मया त्वम् राक्षसेश्वर अधर्मानृतसंयुक्तः कामम् त्वेष निशाचरः तेजस्वी बलवाञ्छूरः सङ्ग्रामेषु च नित्यशः शतक्रतुमुखैर्देवैः श्रूयते पराजितः महात्मा बलसम्पन्नो रावणो लोकरावणः मरणाम् तानि वैराणि निर्वृत्तम् नः प्रयोजनम् क्रियतामस्य संस्कारो ममाप्येष यथा तव त्वत्सकाशान्महाबाहो संस्कारम् विधिपूर्वकम् क्षिप्रमर्हति धर्मेण त्वम् यशोभाग्भविष्यसि राघवस्य वचः त्वरमाणो विभीषणः संस्कारयितुमारेभे भ्रातरम् रावणम् हतम् स प्रविश्य पुरीम् लङ्काम् राक्षसेन्द्रो विभीषणः रावणस्याग्निहोत्रम् तु निर्यापयति सत्वरम् शकटाम् दारुरूपाणि अग्नीम् वैयाजकांस्तथा तथा, तथा चन्दनकाष्ठानि काष्ठानि विविधानि च अगरूणि सुगन्धीनि गन्धांश्च सुरभींस्तथा मणिमुक्ता प्रवालानि निर्यापयति राक्षसः आजगाममुहूर्तेन राक्षसैः परिवारितः ततो माल्यवतासार्धम् क्रियामेव चकारसः सौवर्णीम् शिबिकाम् दिव्यामारोप्य क्षौमवाससम् रावणम् राक्षसाधीशमश्रुवर्णमुखाद्विजाः तूर्यघोषैश्च विविधैस्तुवद्भिश्चाभिनन्दितम् पताका पताकाभिश्च चित्राभिः सुमनोभिश्च चित्रिता उत्क्षिप्य शिबिकाम् ताम् तु विभीषणपुरोगमाः दक्षिणाभिमुखाः सर्वे गृह्य काष्ठानि भेजिरे अग्नयोदीप्यमानास्ते तदा ध्वर्युसमीरिताः शरणाभिगताः सर्वे पुरस्तात्तस्य ते ययुः सर्वाणि रुदमानानि सत्वरम् पृष्ठतो नु सर्वतः रावणम् प्रयते देशे स्थाप्यते पृशदुःखिताः चिताञ्चन्दनकाष्ठैश्च पद्मकोशीरचन्दनैः ब्राह्म्या संवर्तया मासूराङ्कवास्तरणावृता प्रचक्रूराक्षसेन्द्रस्य पितृमेधमणोत्तमम् वेदिम् च दक्षिणा प्राचीम् च पावकम् पृषदाज्येन सम्पूर्णम् श्रवम् स्कन्धे प्रचिक्षिपुः पादयोः शकटम् प्रापुरूर्वोश्चोलूखलम् तदा दारुपात्राणि सर्वाणि अरणिम् चोत्तरारणिम् दत्त्वा तु मुसलम् चान्यम् यथा स्थानम् विचक्रमुः शास्त्रदृष्टेन विधिना महर्षिविहितेन च तत्र मेध्यम् पशुम् हत्वा राक्षसेन्द्रस्य राक्षसाः परिस्तरणिकाम् राज्ञो घृता ताम् समवेशयन् गन्धैर्माल्यैरलङ्कृत्य रावणम् दीनमानसाः विभीषणसहायास्ते वस्त्रैश्च विविधैरपि लाजैरवकिरन्ति स्म बाष्पूर्णमुखास्तथा सददौ पावकन्तस्य विधियुक्तम् विभीषणः स्नात्वा चैवार्द्रवस्त्रेण तिलाम् उदकेन च सम्मिश्रान्प्रदायविधिपूर्वकम् ताः स्त्रियोऽनु नयामाससान्त्वयित्वा पुनः पुनः गम्यतामिति ताः सर्वा विविशुर्नगरम् ततः प्रविष्टा सुपुरीम् स्त्रीषु राक्षसेन्द्रो विभीषणः रामपार्श्वमुपागम्य समतिष्ठद्विनीतवत् रामोऽपि सैन्येन स हर लेभे हर्ष ततो विमुक्त्वा वृत्र शरासनं महेंद्रद कवचं सतन्मह्योषम रिपुन निग्रहा सौम्युपागत ऋहा इशे श्रीमद्राणे वाक आदि का्ये युद्धकाण्डे एकादशाधिकशततमः